गणितगुणगणमप्रमेयमाद्यम् सकलजगस्थिति संयमादिहेरु उपरतमनो योगि हृत्मन्दिरं तं दक्षिणामूर्तिमीडे निरवति सुखम् इष्टदातारमीड्यम् न तदनमनस्ताप भेदैकदक्षम् भव वाग्निना मरेयं सततमहं दक्षिणा मूर्तिमे त्रिभुवनगुरुम् आगमयकप्रमाणम् कारण रविशतभास्वरम् ईहितप्रधानम् सततभगम् दक्षिणा मूर्तिमे भव भावनातिदूरम् भाविनामदूरं भवजलधि सुधारणाग्रिबोधम् सदतमहम् दक्षिणामूर्तिमे निलयमनिशम् वटस्य मूले निगमशिखा व्रात बोधितैकरूपम् धृतमुद्राङ्गुलिगम्य चारुबोधम् सततमगम् दक्षिणा त पूजिताङ्ग्रि पद्मम् पदपद्मान मोक्षदानदक्षम् कृतगुरुकुल वासयोगिमित्रम् सततमहम् दक्षिणामूर्तिमे हृदये सदा विभातिशतकोटि सुन्दराङ्गवाद्यम् परहृदनिरदात्मना सुसेव्यम् सतदमगं दक्षिणामूर्तिमे धवल विकासिताननार्जम् श्रुति सुलभम् वृषबाधिरूढगात्रम् सित जलज सुशोभदेहकान्तिम् सततमघम् मूर्तिमेडे वृषभकृतमिदम् इष्टसिद्धितं गुरुवरदेवसन्निधौ पठेत्यग सकल सकलदुरितदुःखवर्गाणि व्रजति चिरं ज्ञानवान् शम्भुलोगम्